श्रीहरये नमः अथ चतुर्थोऽध्यायः श्रीशुक उवाच कालस्ते परमाण्वाधिर्द्विपरार्धावतिर्नृपां कथितो युगमानं च शृणुकल्पलयावपि चतुगहस्र ब्रह्मणो दिन मुच्य से सकलो य मन्वस्थो चुर्दश विशापते तदंते प्रलयस्तावान् ब्राह्मी रात्रिधा तेरे लोकाइ में तपंते प्रलयायी एष नैमितोक्त प्रलयोग यु स्ते नन्तास नो विश्वम् आत्मसात्कृत्यशात्मभूः द्वतिक्रान्ते ब्रह्मणः परमेष्टिनः तथा प्रकृतयस्तप्त कल्पन्ते प्रलयाय वै राजन् प्रलयो यत्र लीयते आण्डकोऽसस्तु सङ्घातो विघात उपसाधिते पजन्यशतवर्षाणि भूमौ राजन्न वर्षति तदा निरेन्नेह्यन्योन्यं भक्षमाणाक्षुधार्दिताः नकैः काल नोपधृता प्रजाः सामुद्रैहि घोरै सर्वं नैव विमुञ्चते तं संवर्त को अग्निर्शङ्कर्षणमुकोतितः दहत्यनिलवेशून्यान् भुवि भूविवरानता। उपर्यद समन्ताश्च शिखाभिर्वग्निसूर्ययोः दह्यमानं विभात्यण्ढं दत्त गोमयपिण्ढवत् ततः प्रचण्ड भवनो वर्षाणामधिगं सतं परस्साम् धूम्रं तं रजसावृतम् सतो ततो मेघकुलान्यङ्गचित्रवर्णाप्यनेकशः शतं वर्षाणि वर्षन्ति नदन्ति रपसस्वनैः तत एकोदकम् विश्वं ब्रह्माण्डविवरान्तरं तथा भूमिर्गन्तगुणं ग्रसन्त्याप उदप्लवे ग्रस्तगन्धादुभृत्वे प्रळयत्वाय कल्पते अपां रसमतो तेजस्ता ते तनीरसाः ते ग्रसते तेजसो रूपं वायुस्तत्रहितं तथा लीयते चानिले तेजो वायोःखं द्रसते गुणं सवै विसतिकं राजंस्ततश्च नभसो गुणं शब्दं ग्रसति भूधादिर्नभस्तमनुलीयते तैजश्चेन्द्रियाण्यङ्गदेवान् वैकारिको गुणैः महान् ग्रसत्यहङ्कारं गुणासत्त्वादयश्च तं ग्रसते व्याकृतं राजन् गुणान् कालेन चोदितं न तस्य परिणामादयो गुणाः अनाद्यनन्तम् अव्यक्तं नित्यं कारणमव्ययं न यत्र वाचो न मनो न स त्वं तमो रजो वामहदातयोमि न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः न स्वप्नजाग्रन्न च शुशुब्धं न कं जलं भूरनिलोऽग्निरर्गः संक्षुप्तवत् शून्यवत्त प्रतर्घ्यं तन्मूलभूतं पदमामनन्ति लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यधा शक्तयः सम्प्रलीयन्ते बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयं दृश्यत्वाव्यतिरोकाभ्यां माद्यन्तवतवस्तुयद् दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथद् भवेत् एवं दीःखानि राजन् नानात्वं प्रत्यगात्मनि यथा जलधरा व्योम्नि भवन्ति न भवन्ति च ब्रह्मणीतं तथा विश्वमवयव्युदयाप्ययात् सत्यं ह्यवयवप्रोक्त सर्वाभयविनामिह विनार्थेन प्रतीयेरन् पटस्यो वाङ्घतन्तवः यत्सामान्यविशेषाभ्या मुभलभ्येत स भ्रमः अन्योन्यापाश्रयात् सर्वमाद्यन्तवतवस्तु विकारख्यायमानोऽपि प्रत्यगात्मानमन्तरं न निरूप्योऽस्त्यणुरपि स्याचेच्चित्सम आत्मवत् सत्यस्य नानात्वमविद्वान् यधि नाना त्वञ्चित्रयोर्यद्वद् ज्योतिषोर्वातयोरिव यथा हिरण्यम् बहुता समीयते नृभिक्रियापिर्व्यवहारवत् व्याख्यायते लौकिकवैदिकैर्जनैः यथा गणोऽर्घप्रभवोऽर्घदर्शितो ह्यर्गांशभूतश्च चक्षुक्षुस्तमः एवं त्वमहं ब्रह्मगुणस्तदीक्षितो ब्रह्मां सहस्यात्मन आत्मबन्धनः गणो यदार्घप्रभवो वितीर्यते चक्षुष्वरूपं रविमीक्षते तदा यदा ह्यहङ्कारमुभातिरात्मनो विज्ञासयानस्यतिदर्ह्यनुस्मरेत यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनं चित्वाच्युदात्मानुभवोऽवतिष्ठते तामाहुरात्यन्निकमङ्गसंप्लवम् निद्यथा सर्वभूतानां ब्रह्मादीनां परन्तप उत्पत्तिप्रलयावेकसूक्ष्मज्ञासं का प्रशक्षते कालस्रोतो जवेनासु क्रियमाणस्य नित्यधा परिणामिनाम् अवस्थास्ता जन्मप्रलयहेतवः अनाद्यन्तवदानेन कालेन ईश्वरमूर्तिना अवस्थानैव दृश्यन्ते वियति ज्योतिषामिव नित्यो नैमित्तिकश्चैव तथा प्राकृतिको आद्यन्तिकश्च कथितकालस्य गतिरीदृशी एता कुरुश्रेष्ठजगद्विधादोर्नारायणस्या किल सद्वधाम्नः लीलाकथास्ते कथिता नाजोऽप्यभिधातुमी सखा संसारसिन्धुम् अधिदुस्तरम् बुत्थितिशोर् नान्यक् प्लवो भगवतः पुरुषोत्तमस्य लीलाकदारसनिषेवणमन्तरेण पुंसो भवेत् विविध दुःखवार्तिदस्य पुराणसञ्चितामेतां ऋषेर्नारायणोऽव्ययः नारदाय पुरा प्राह कृष्णद्वैपायनाय सहा स वै भगवान् बाधरायणः इमां भागवतीं प्रीतः संहितां एतां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये दीर्घसत्रे कुरुश्रेष्ठसम्पृष्टस्सौनकादिभिः इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्ते चतुर्थोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमघराजकी जय